अथ षष्टितमोऽध्यायः सौ तिरुवाच श्रुत्वा तु सर्पसत्राय दीक्षितं जनमे जयम् अभ्यगच्छदृशिर्विद्वान् कृष्णद्वैपाय नस्तदा जनयामासयम् काली शक्तेः पुत्रात् पराशरात् कन्यैवयमुना द्वीपे सद्य इष्ट्यादेहमविवधत् वेदांश्चाधिजगे सेतिहासान्महायशाः यन्नैति तपसा कश्चित् न च न व्रतैर्नोपवासैश्च न चतुर्धायो वेदं वेदविदाम्बरः परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतश्रुतिः धृतराष्ट्रं च विदुरं चाप्यजीजनत् शान्तनोः तन्वन् पुण्यकीर्ति महायशाः जनमे राजर्षेः स महात्मा सदस्तदा विवेशसहितः शिष्यैः वेदवेदाङ्गपारदैः तत्र राजानमासीनम् ददर्श जनमे जयम् व्रतम् सदस्यैर्बहुभिः देवैरिव पुरन्दरम् तथामूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे जनमे जयस्तु राजर्षिः दृष्ट्वा तम् ऋषिमागतम् स गणोऽभ्युद्ययौ तूर्णम् प्रीत्या भरत सत्तमः काञ्चनम् विष्टरं तस्मै सदस्यानुमतः प्रभुः आसनं कल्पयामास यथा शक्रो बृहस्पतेः तत्रोपविष्टम् वरदम् देवर्षिगणपूजितम् पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा पाद्यमाचमनीयं च अर्घ्यं गां महाय कृष्णाय तदर्हाय न्यवेदयत् प्रतिगृह्यतु तां पूजाम् पाण्डवाज्जनमेजयात् गां चैव समनुज्ञाप्य व्यासः प्रीतो भवत्तदा तथा च पूजयित्वा तम् प्रणयात्प्रपितामहम् उपोपविश्य प्रीतात् पर्यपृच्छदनामयम् भगवानपि तम् दृष्ट्वा कुशलम् प्रतिवेद्य च सदस्यैः पूजितः सर्वैः सदस्यान् प्रत्यपूजयत् ततस्तु सहितः सर्वैः सदस्यैर्जनमे जयः इदम् पश्चाद्विजश्रेष्ठम् पर्यपृच्छत्कृताञ्जलिः उवाच कुरूणाम् पाण्डवानाम् च भवान् प्रत्यक्ष चरितमिच्छामि कथ्यमानं त्वया दृजा कथम् समभवद्भेदः तेषामक्लिष्टकर्मणाम् तच्च युद्धम् कथम् वृत्तम् भूतान्तकरणम् महत् पितामहानाम् सर्वेषाम् दैवेनानिष्टचेतसाम् कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तम् द्विजोत्तम सौतिरुवाच तस्य तद्वचनम् श्रुत्वा कृष्णद्वैपायनस्तदा शशासशिष्यमासीनम् वैशम्पायनमन्तिके व्यास उवाच गुरूणाम् पाण्डवानाम् यथा भेदो भवत्पुरा तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा आचचक्षेततः सर्वम् इतिहासम् पुरातनम् राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः भेदम् सर्वविनाशम् च कुरुपाण्डवयोस्तदा इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि कथाबंधे षितमोध्या